हरि ओम् श्री सीतारामचन्द्राभ्या नमः अथ श्रीमद् वाल्मीकि रामाणे अयोध्याखण्डे चतुर्दशाधिकशतम सर्गः भरतेन अयोध्या दुरवस्थाया दर्शनम् अन्तःपुरे प्रविश्य तस्य दुःखपारवश्यम् स्निग्ध गम्भीरघोषेण चन्दने नोपयन्त्रभू अयोध्याम् बिडालो लोकचरिताम् मारीना नरवर्णाम्, त्रिमिराभ्या हताम् कालिम् अप्रकाशाम् निशाम्मिवे, राहु प्रियाम् पत्नीम् श्रीया प्रज्वलित प्रभाम् ग्रहेणाभ्युदितेन एकाम् रोहिणीमिव पीडिताम् अल्पष्ण क्षुब्धसलिलाम् घर्मसप्त विहङ्गमाम् लीनमीनशग्राहाम् गीरी नदीमिव विधू मामिव हे माम् शिखाम् अग्ने समुत्थिताम् हीरभ्युक्षिताम् पञ्च शिखाम् विप्रलयम् गताम् विध्वस्तैकवचाम् रुग्णा गजवाचीरथध्वजाम् हत प्रवीरामापन्नाम् च मोम्बीव महाहवे स्वस्त्रीनाम् सस्वनाम् भूत्वा सागरस्य समुत्थिताम् प्रशान्त मारुतोधूताम् जलोभिव निस्वनाम् त्यक्ताम् यज्ञायुधै सर्वै अभिरूपै च याजकै सुत्याकाले सुनिवृत्ते वेदीम् गतरवामिव गोष्ठमध्ये स्थिताम् माताम् अचरन्ती नवम् दृढम् गोवृक्षेण परित्यक्ताम् गवाम् पत्नीम् इवोत्सुकान् प्रभाकराद्यै स्नुस्निग्धैः प्रज्वलद्भिोत्तमै वियुक्ताम् निर्जात्यै नवाम् मुक्तावलीमिव स चरिताम् स्थानाम् महीम् पुण्यक्षया कथाम् संहृत द्युतिवित्ताराम् पुष्पनद्धाम् वसन्ताम् ते मत्तये भ्रमरचालिनीम् कृतदायवाग्निविप्लुष्टाम् क्रान्ताम् वनलतामिवे सम्मूढे निगमाम् सर्वाम् सङ्क्षिप्त विपणापणाम् प्रच्छन्न शशिनक्षत्रम् जाम्बिवाम्बूधरैर्युताम् कील पानोत्तमय भग्नैः शरावैरभि संवृताम् हत शौण्डामिव ध्वस्ताम् पानभूमिम् असंस्कृताम् कृष्णभूमितलां निम्नाम् कृष्णपात्रैः समावृताम् उपयुक्तोदकाम् भगिनाम् प्रपाम्नि पतितामिव विपुलां विततां चैव युक्तपाशां तरस्विनाम् भूमौ बाणैर्विनिष्कृताम् पतितां जाम्मिव युधात् सहसा युद्ध शौण्डेन हयारोहेण वहिताम् निहताम् प्रति सैन्येन वडवामिव पातितम् भरतस्तू रथस्थस्तम् श्रीमान् दशरथात्मज वाहयन्तम् रथश्रेष्ठम् सारथिम् वाक्यम् अब्रवीत् किन्नु खल्वद्य गम्भीरो मूर्छितो न निशाम्यते यथापुरम् अयोध्यायाम् गीत वा द्वित्र निस्वनः वारुणी मदगन्धश्च माल्यगन्धश्च मूर्छितः चन्दना गुरुगन्धश्च न प्रवाति समन्ततः यान प्रवरघोषश्च सुस्निग्धहय निस्वनः प्रमत्तः गजनादश्च महाश रथ निस्वनः नैदानीं श्रूयते स्यां विवासिते चन्दना गुरुगन्धाश्च महाराश्च वनस्रज गते रामे हि तरुणः सन्तप्ता नोपभुञ्जते बहिर्यात्राम् न गच्छन्ति चित्रमाल्य पुरे सा पुरस्याज्य धृतिर्गता नहि राजत्ययोध्येयं सावार्जुनी क्षप कदा नु खलु मे भ्राता महोत्सवैवागतः जनैः शक्त्ययोध्यायाम् हर्षम् भीष्मैव अदः तरुणैः चारुवेशेषे नरेन्नतगापिभिः नाभिभान्ति महापथ इति ब्रुवन् सार्थिन दुःखितो भरत सदा अयोध्याम् तम् प्रविश्यैव विवेशे वसतिम् पितुः तेनैनाम् नरेन्द्रेण सिंहहीनाम् गुहामिवे तदा तदन्तपुरमुज्झितप्रभम् सुरैरिवोत्कृष्टमभस्करम् दिनम् निरीक्ष्य सर्वत्र विभक्त माद्मवान् ममोच सुदुःखितः इत्याशि श्रीमद् रामायणे वाल्मीकि अधिकारे उदाखण्डे चतुर्दशाधिकशतमः सर्गः श्रीसीतारामचन्द्रार्पणमस्तु